तैत्रियोपनिषद तृतीया भगुवल्ल श्रीगुभ्यो नम हरी ओ सहना सहन भुन को सह वीजां वह तेजस्वनावधिस्तुम विषावै ॐ शान्तेशान्ते शान्तिः हरिः ॐ भृगुर्वैवारुणिः वरुणं पितरमुपससार अधिः भगवो ब्रह्मेति तस्मा एतत्रोवाच अन्नं प्राणं भनो भनोवाचमिति गम्भोवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासाव तद्ब्रह्मेति सतपोतप्यत सतपस्तप्ताम् अह्नं ब्रह्मेतिर्यजानाम् अन्नाद्येव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नं प्रयन्त्यभिसंविशन्तीति तद्विज्ञायां पुनरेव वरुणं पितरमुपससारम् अधिः भगवो ब्रह्मेति तगम्भोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति तपो तप्यत ततपस्तप्त्वा प्राणो ब्रह्मेति व्यजानाम् प्राणाद्येव भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणं प्रयन्त्यभिसंविशन्तीति तद्विज्ञायां पुनरेव वरुणं पितरमुपसारम् अधिः भृगुवो ब्रह्मेति तगम्भोवाच तपसा ब्रह्मविजिज्ञासस्वं तपो ब्रह्मेति स तपो तप्यतां ततपस्तप्त्वां मनो मनसोषेव खल्भिमानि भूतानि जायन्ते मनसा जातानि जीवन्ति मनः प्रयन्त्यभिसंविशन्तीति तद्भिज्ञाय पुनरेव वरुणं पितरमुपससारम् अधिः भगवो ब्रह्मेति त्वं भोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति स तपो तप्यत तपस्तप्त्वां विज्ञानं ब्रह्मेति विजदानात् विज्ञानाद्येव कल्विमानि भूतानि जायन्ते विज्ञानेन जातानि जीवन्ति विज्ञानं त्रयन्त्यभिसंविशन्तीति तद्विद्याय पुनरेव वरुणम् पितरमुपससार अधिः भगवो ब्रह्मेति तगम्भोवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति स तपो आनन्दो ब्रह्मे दिव्यजानाम् आनन्दाद्येव खल्विमानि भूता निजायन्ते आनन्देन जाता जीवन्ति आनन्दं प्रयन्त्यभिसंविशन्तीति तै सा भा आर्गविवारुणि विद्यां परमे व्यो य एवं वेद प्रतितिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया प्रशुभिर्ब्रह्मवर्षसेनां महान् कीर्त्याम् अन्नं न निन्द्यां तद्रतं प्राणो वा अन्नं शरीरमन्नादम् प्राणे शरीरं प्रतिष्ठितं शरीरे प्राणप्रतिष्ठितः तदेतदन्न मन्ये प्रतिष्ठितं शय एतदन्न मन्ये प्रतिष्ठितं वेद प्रतितिष्ठति अन्नमानन्नादो भवति महान् भवति प्रजया पशुभि ब्रह्मवर्षसेनाम् महान् कीर्त्या अन्नं न परिचक्षीत तद्रतम् आपो वा अन्नं ज्योतिरन्नादम् अप्सु ज्योतिप्रतिष्ठितं ज्योतिष्याप प्रतिष्ठिता तय एतदन्नमन्ये प्रतिष्ठितं वेद प्रतितिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया प्रसुभि ब्रह्मवर्चसेनां महान् कीर्त्या अन्नं बहु कुर्वीत तद्रतं अन्नम् आकाशो ॐ नादः पृथिव्यामाकाशप्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठितां तदेतदन्नमन्ये प्रतिष्ठितं स य एतदन्नमन्ये प्रतिष्ठितं वेद प्रतितिष्ठति अन्नवाणन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या न कञ्चन वसतौ प्रत्याचक्षीत विधया ब्रह्मण्डम् प्राप्नुयान् अराध्यस्मा अन्नमित्याचक्षते एतद्वै मुखुतोन्नगम् राद्धम् मुखुतोस्मा अन्नघं राध्यते एतद्वै मध्यतो ओन्नगं मध्यतोस्मा अन्नघं राध्यते एतद्वा अन्ततो राद्धम् अन्ततोस्मा अन्नगम् राध्यते य एवं वेदं क्षेम इति वाचि योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषे समाज्ञाः अथ दैवीः तृप्तिरिति वृष्टौ बलमिति विद्यते यश इति पशुषु ज्योतिरितिनक्षत्रेषु प्रजातीरमृतमानन्द इत्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीतं प्रतिष्ठावान् भवति तन्महः इत्युपासीतं तन्मह महान् भवति तन्मन इत्युपासीत मानवान् भवति तन्नम इत्युपासीत नम्यन्ते एस्मै कामाः तद्ब्रह्मेत्युपासीत ब्रह्मवान् भवति तद्ब्रह्मण परिमर इत्युपासीत परेण म्रियन्ते दिशन्तः पर्यये प्रियाः भातृव्याः तयश्चायं पुरुषे यश्चासाबाधिते स एकः स एवंवितम् अस्मान् लोकात् प्रीत्य एतमनन्नमयमात्मानमुपसङ्क्रम्य एतं प्राणमयमात्मानमुपसङ्क्रम्य एतं मनोमयमात्मानमुपसङ्क्रम्य एतं विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् एतस्सामगायन्नास्ति a u ha u ha u aham annam aham annam aham annam aham annado aham annado aham annado ahagvam shloka kritahagvam shloka kritahagvam shloka kritah आमस्मि प्रथमजारितास्य पूर्वं देवेभ्यो अमृतस्य ना भाई यो मा ददाति स इद अहं विश्वं भुवनमभ्यमवां सुवर्णज्योति य एवं वेद इत्युपनिषत् ॐ सहना भवतु सहनो भुनक्तु सह बीजं करवावहै तेजस्विनावधितमस्तु मा ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तस्वत् श्रीरामकृष्णार्पणमस्तु